मम सर्वेभ्यः अस्माकं योगनिश्चयजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् अद्य एकः विषयः अस्ति मुख्यः विषयः अस्ति तर्हि योगः इति विषयः सर्वेषु स्तरेषु योगस्य कार्यं भवति खलु शारीरिकस्तरे मानसिकस्तरे आध्यात्मिकस्तरे तर्हि योगः योगस्य प्रभावः सर्वेषु विषयेषु भवति इत्युक्ते तादृशविषयः नास्ति यत्र योगस्य प्रभावः नास्ति तर्हि योगः सर्वव्यापी अस्ति इदानीं योगे त्रयः विषयाः मौलिकविषयाः सन्ति येषाम् आधारेण योगः प्रवर्तते एते त्रयः विषयाः के इति चेत् एते मूल मूलभूताः मौलिकविषयाः सन्ति त्रयः विषयः एकः अस्ति प्रणिपातः प्रणिपातः इति एकः विषयः द्वितीयः अस्ति परिप्रश्नः परिप्रश्नः अनन्तरं सेवा इत्युक्ते तत्र कृष्णः भगवान् कृष्णः यः आसीत् तु महान् योगी य महान् योगी आसीत् स तेन एव अत्र उक्तमस्ति परि परिपातेन परिप्रश्नेन सेवया इति तर्हि एतेषां सर्वेषाम् अर्थः कः इति वयं पश्यामः अद्य प्रणिपातः इत्युक्ते शरणागतिः आत्मत्यागः एव प्रणिपातः परिप्रश्नः इत्युक्ते आध्यात्मिकप्रश्नः परिप्रश्नः अपि च सेवा तर्हि प्रत्येकं स्वीकृत्य वयं पश्यामः प्रथमं वयं सेवां स्वीकुर्मः सेवा इति परिचितः विषयः अस्माकं तर्हि तत्र लौकिकस्तरे जनाः ये कुर्वन्ति ते अपि तत्र सेवासेवा इति वदन्ति वि आर् द बिज़्नेस् आफ् सर्विङ्ग् कस्टमर्स् इति एवं वदन्ति भौतिकस्तरे सेवा इति तथा ते चिन्तयन्ति वस्तुतः तत्र आर्थिकदृष्ट्या सेवा इत्युक्ते तत्र किम् अस्ति इत्युक्ते तत्र पारस्परिकम् आदानप्रदानम् इत्युक्ते वाणिज्यक्षेत्रेषु सेवा इत्युक्ते परस्परम् आदानप्रदानम् अहं धनं ददामि भवान् किञ्चित् ददाति किञ्चित् वस्तु ददाति वस्तुतः तत्तु सेवा नास्ति तत्र यः आपणिकः अस्ति सः धनं स्वीकरोति अनन्तरं किमपि तत्र वस्तु ददाति तत्र विनिमयः अस्ति एक्स्चेञ्ज् अस्ति म्यूचुवल् पारस्परिकं विनिमयः वर्तते किञ्चित् दातव्यं किञ्चित् स्वीकरणीयम् इत्येवं रीत्या परन्तु आध्यात्मिकक्षेत्रे सेवा इत्युक्ते पारस्परिकम् आदानप्रदानं नास्ति सेवा तु तत्र पारस्परिकं किमपि नास्ति तत्र एकपक्षीयम् अहं मम सर्वस्वं परमात्मानं प्रति ददामि अहं स्वमेव ददामि परमात्मानं प्रति अहं स्वमेव ददामि तदर्थम् अहं किमपि न स्वीकरोमि अहं सर्वं ददामि परन्तु किमपि न स्वीकरोमि मम मम सर्वम् इत्युक्ते तत्र मम शरीरं मम मनः मम धनं मम यत्किमपि अस्ति सर्वम् अहं ददामि परमात्मनः कृते अहं सर्वं ददामि अहं किमपि न स्वीकरोमि यदि वयं सर्वं ददामः इत्युक्ते स्वस्य अस्तित्वमपि वयं ददामः परमात्मनः कृते स्वस्य अस्तित्वमपि वयं ददामः यदि एवं कुर्मः तदानीं किं भवति स्वस्य अस्तित्वमपि वयं दद्मः चेत् तदानीम् अस्माकम् अस्तित्वं परमात्मना सह ऐक्यं भवति अस्माकं पृथक् अस्तित्वं न भवति अस्माकम् अस्तित्वं परमात्मना सह ऐक्यं भवति तर्हि यदा वयं सर्वं ददामः इत्युक्ते वयं सर्वं दद्मः तर्हि किमपि न लभ्यते वा इति चेत् तत्र लौकिकदृष्ट्या वयं पश्यामः चेत् किमपि न लभ्यते यथा तत्र वयं वाणिज्यक्षेत्रे वयं पश्यामः वयं किमपि दद्मः वयं द धनं दद्मः तस्य अपेक्षया किमपि वयं स्वीकुर्मः एवं रीत्या तत्र अत्र किमपि नास्ति वयं स्वं ददा दद्मः तस्य अपेक्षया किमपि न स्वीकुर्मः इत्येव भाति तत्र भौतिकदृष्ट्या परन्तु अत्र किम् अस्ति इति चेत् यदा वयं स्वं दद्मः तदानीं वयं किं प्राप्नुमः इति चेत् परमात्मा प्राप्नुमः परमात्मानं प्राप्नुमः खलु परमात्मानं प्राप्नुमः इति एवं कुर्मः चेत् अस्माकं हानिः तु नास्ति यद्यपि लौकिकदृष्ट्या वयं किमपि न प्राप्नुमः तथापि आध्यात्मिकदृष्ट्या वयं परमात्मानं प्राप्नुमः अतः तत्र अस्माकं हानिः नासि अस्माकं जयः एव अस्ति खलु द बिन् बिन् सिच्युवेशन् एव अस्ति तर्हि अयमेव अत्र सेवा इति शब्दस्य अर्थः सेवा इति शब्दः पारस्परिकं नास्ति अहं किमपि ददामि किमपि स्वीकरोमि इति नास्ति परन्तु तत्र एकपक्षीयं भवति अहं सर्वं ददामि किमपि न स्वीकरोमि इति तदेव अत्र सेवा तर्हि कः सेवां कर्तुं योग्यः वर्तते इति चेत् केवलं साधकः यः साधनां करोति सः एव सेवां कर्तुं योग्यः किमर्थमिति चेत् निःस्वार्थसेवा करणीया खलु सर्वदा यदा वयं कदापि वयं सेवां कुर्मः तदानीं सर्वदा वयं किं चिन्तयामः मम कृते किं लभ्यते अहं किमपि ददामि चेदपि अहं मम मम चित्रं कुत्र तत्र वार्तापत्रिकायां मम चित्रम् अस्ति वा मया एतत् एतत् कृतं मया धनं दत्तं ओ मम मम चित्रं कुत्रचित् भवेत् इति एव सर्वदा सर्वत्र वयं पश्यामः खलु केनचित् किमपि कृतं चेत् पुनः तत्र सः चिन्तयति ओ मम कृते किं लभ्यते मया एतत् दत्तं मम चित्रं अड्वटैस्मेण्ट् रूपेण सः कर्तुम् इच्छति इति कृत्वा सर्वदा भावना आयाति यदा सेवा करोति सेवां करोति तर्हि निःस्वार्थसेवा कथं कर्तुं शक्यते इति चेत् यदा साधनां कोपि साधनां करोति तदानीं तत्र निःस्वार्थभावना आयाति किमर्थम् इति चेत् यदा साधनां करोति तदानीं मम कारः आयाति सर्वे मम इति भावः आयाति यदा सर्वे मम इति भावः आयाति तदानीं तत्र स्वार्थभावना न आयाति यदा सर्वे मम इति भावना नास्ति तदानीमेव सः पृथक् अहं पृथक् पृथक् इति भावना भवति सः मम नास्ति ममत्वं मम कारत्वं भवति तदानीं स्वार्थभावना आयाति यदा तत्र पिता पुत्रस्य कृते किमपि करोति चेत् तत्र स्वार्थभावना न आयाति यतोहि पिता चिन्तयति पुत्रः मम मम अस्ति इति एवं यदा पतिः किमपि करोति चेत् पत्न्याः कृते तदानीं स्वार्थभावना न आयाति सामान्यतया न आयाति यतोहि स चिन्तयति पत्नी मम इति एवं रीत्या मम तत्र वर्तते कृत्वा स्वार्थभावना न आयाति परन्तु यदा परिवारात् बहिः वयं पश्यामः चेत् सामान्यतया स्वार्थभावना आयाति मया किमपि क्रियते चेत् मम कृते किं लभ्यते किमपि भवेत् इत्येव भावना अस्ति परन्तु यः साधकः अस्ति यः साधनां करोति यः परमात्मनः विलीनः अस्ति तस्य कृते एतादृशभावना न भवति यतोहि तत्र तत्र सर्वं जगत् मम इति भावना सर्वे मम भ्रातरः सन्ति इति भावना यदा मनसि आयाति तदानीं तत्र स्वार्थभावना निश्चयेन न आयाति इति तद् अस्ति प्रथमः मूलः विषयः सेवा द्वितीयः अस्ति परिप्रश्नः परिप्रश्नः प्रश्नः इत्युक्ते तत्र प्रश्नः इति शब्दस्य अर्थः कः इति वयं जानीमः क्वश्चिन् इत्यस्मिन् अर्थे अस्ति प्रश्नः इत्युक्ते अन्वेषणं प्रश्नः नाम किम् इति चेत् अन्वेषणं किमपि तत्र किमपि अस्ति मम मनसि तस्य अन्वेषणम् अहं करोमि तस्य उत्तरम् अहं ज्ञातुमिच्छामि इति कृत्वा अहं प्रश्नं पृच्छामि सात प्रश्न तरी बु प्रश्ना भर्ती ये किमी कय उत्तर प्राप्त परंतु आध्यात्मक स्रे पिप्रश्न ना करी प्रश्न आध्यात्मक अभ्यास विषय प्रश्न पिप्रश्न यदि आचार्य अस्त आचार्या वात ये आसना कथम करनी कथं लोकात् मनसः निग्रहः निग्रहं करणीयं मनसः निग्रहः निग्रहः कथं करणीयः अपि च तत्र परमात्मनि कथं मनः विलीनं कथं कर्तुं शक्यते इति एवं रीत्या प्रश्नाः भवन्ति यदा वयं तस्य तस्य एतादृशप्रश्नानाम् उत्तरं वयं जानीमः तदानीं वयम् अभ्यासं कर्तुं शक्नुमः यदा अभ्यासं कुर्मः तदानीं मनसः उन्नतिः भवति इति एतादृशप्रश्नाः एव परिप्रश्नाः तर्हि यदा वयम् आचार्यं प्रति किमपि पृच्छामः तदानीं सर्वदा अस्माभिः चिन्तनीयं मम प्रश्नः परिप्रश्नः अस्ति वा न वा इति यः प्रश्नः पृष्टः तस्य मनसि एतादृशभावना भवेत् एत यत् यः यस्य प्रश्नस्य उत्तरम् अहं प्राप्नोमि तस्य आचार्ये अहम् आचरणे अहं तं विषयं कथम् आनेतुं शक्नोमि इति एव त तादृशभावना एव भवेत् केवलम् आचार्यस्य किं टेस्टिङ्ग् करणीयम् इति आचार्यः सर्वं जानाति वा न इति अहं परिश परीषणं करोमि इति भावना मनसि न भवेत। अतः सामान्यतया यदा जनाः प्रश्नाः प्रश्नान् पृच्छन्ति तदानीं वयं द्रष्टुं शक्नुमः प्रश्नानां विभागं वयं कर्तुं शक्नुमः शक्नु इति चेत् सामान्यप्रश्नाः के प्रश्नाः के प्रश्नः परिप्रश्नाः परिप्रश्नः परिप्रश्नाः सन्ति वा इति तर्हि यः साधकः अस्ति तेन केवलं परिप्रश्नः प्रष्टव्यः न तु सामान्यप्रश्नः परिप्रश्नः इत्युक्ते तादृशप्रश्नः येन तस्य उन्नतिः भवेत् तस्य उन्नतिः भवेत् यस्य उत्तरं यदा सः प्राप्नोति तदानीं तस्य व्यवहारे कथम् आनयनं तत् तस्य अभ्यासः कथं कर्तुं शक्यते यदा आसनानां विषये ज्ञास्यति तदानीम् आसनानि मया कथं करणीयानि कथं कदा करणीयानि कथं करणीयानि इति विषये चिन्तनम् अनन्तरम् आचरे आचरणे तस्य आनयनम् एवं परिप्रश्नः इति द्वितीयः विषयः अस्ति प्रथमः साधकस्य कृते मौलिकविषयः अस्ति सेवा द्वितीयः विषयः अस्ति परिप्रश्नः तर्हि यः साधकः अस्ति सः स्वस्य समयस्य व्ययः व्ययं न करोति केवलम् अनुचितप्रश्नानाम् उत्तरं ज्ञातुं खलु तादृशप्रश्नेन न लाभः न लाभः यदि केवलं द्रष्टुमिच्छति यत् आचार्यः किमपि न जानाति तर्हि तेन किं भवति तस्य स्वस्य अहङ्कारस्य वर्धनमेव भवति यथा तत्र महोदय सर्वदा वदति तत्र तत्र पूरी इत्यस्य उदाहरणं ददाति यथा पूरी उपरि गच्छति तत्र अन्ते किमपि नास्ति एवं रीत्या यदा एतादृशप्रश्ना प्रश्नान् कुर्मः येन अस्माकं वर्धनं नास्ति केवलम् अस्माकम् अहङ्कारस्य वर्धनं तदानीं पूरीव अस्माकम् अहङ्कारः वर्धते अतः तादृशप्रश्नान् न तादृशप्रश्नः न करणीयः खलु अतः सर्वदा यः यदा प्रश्नः अस्माभिः करणीयः तदानीं सर्वदा चिन्तनीयं मम प्रश्नः परिप्रश्नः अस्ति वा इति केवलं मम मनसि प्रश्नः आगतः इति न प्रष्टव्यं द्वितीयः तृतीयः अस्ति प्रणिपातः तर्हि प्रणिपातः इत्युक्ते प्रणिपातः इत्युक्ते किं प्रणिपातः इत्युक्ते पूर्णतया सम्पूर्णतया समर्पणं सम्पूर्णतया स समर्पणम् इत्युक्ते परमात्मा सर्वशक्तिमान् अस्ति अहं मम आत्मत्यागं करोमि तर्हि माहम् आत्मत्यागं करोमि तस्य पुरतः अहं सम्पूर्णतया शरणागतिं करणोमि करोमि तर्हि सम्पूर्णतया शरणागतिः कथं करणीया तत्र विषयः कः इति चेत् अस्माकम् अहङ्कारः तु अस्मान् आधारीकृत्य वर्तते अस्माकम् अहमस्मि इति भावम् आधारीकृत्य वर्तते तर्हि यदा मनुष्यः किमपि जानाति किमपि ज्ञास्यति तदानीं सः चिन्तयति अहं सर्वं जानामि इति कृत्वा तस्य अहङ्कारः वर्धते तदानीं यदा तस्य अहङ्कारः वर्धते अहम् अहं सर्वं जानामि यद्यपि सः अल्पज्ञः अस्ति तथापि सः चिन्तयति अहं सर्वं जानामि अहमेव सर्वशक्तिमान् इति अहङ्कारः आयाति तर्हि एवम् आयाति चेत् तदानीं तत्र अहङ्कारस्य वर्धनम् अहङ्कारस्य वर्धनं यदा भवति तदानीं स्वस्य यः पृथक् अस्तित्वमस्ति तस्य एव वर्धनं भवति तदानीं तादृशपुरुषः शरणागतिं कर्तुं न शक्नोति परमात्मानं प्रति परमात्मनः पुरतः सः शरणागतिं कर्तुं न शक्नोति तर्हि त स्वस्य भावे एव अस्ति यतोहि सः स्वमेव सर्वशक्तिमहान् इति चिन्तयति सः सर्वं जानाति तस्य अहङ्कारः वर्धितः अस्ति तर्हि तादृशपुरुषः कथञ्चित् अपि शरणागतिं कर्तुं न शक्नोति तर्हि तर्हि सः चिन्तयति यदि त ता, तादृशपुरुषं प्रति वयं शरणागतिः इति विषयम् विषयम् उपस्थापयामः तदानीं सः न अवगच्छति सः अवग तत् सः सा, निराकरोति तर्हि शरणागतिः कथं करणीया इति चेत् शरणागतिः ध्यानेन साधनया एव करणीया साधनया यदा मनः एकाग्रतां प्राप्नोति तदानीं तत्र यत्किमपि मम पुरतः वर्तते इत्युक्ते साधनायाम् एतादृशभावः यदा भवति तत्र एकाग्रता परमात्मनि मनः विलीनः विलीनं वर्तते तदानीं यदा साधनां न करोति तदानीमपि सः यत्किमपि मम पुरतः अस्ति तत्सर्वं परमात्मनः गुणान्वितं रूपम् इति सः अवगच्छति तर्हि इत्युक्ते सामान्यतया यदा वयं निर्धनी पुरुषः कश्चन अस्ति चेत् तस्य कृते किमपि वयं धनं दद्महा वा वा किमपि तत्र कमपि सेवां कुर्मः कामपि सेवां कुर्मः तदानीम् अस्माकं भावः भवति मया कृतं आ, मया कृतम् अतः अहं सामान्यपुरुषः नास्मि मया एतत् कृतम् इति एतादृशभावना वस्तुतः मानसिकरोगः अस्ति मानसिकरोगः यदा वयम् एवं चिन्तयामः यत् मम यः पुरुषः अस्ति निर्धनीपुरुषः अथवा रोगीपुरुषः तर्हि सः तु परमात्मनः स्वरूपं वर्तते सः परमात्मनः गुणान्वितं रूपम् मम तु किमपि नास्ति यत्किमपि मम पार्श्वे वर्तते तत्तु परमात्मना परमात्मना एव दत्तम् अतः यद् यद् मम अस्ति इति अहं चिन्तयामि वस्तुतः तत् सर्वं मम नास्ति परमात्मनः एव सर्वम् अस्ति अतः इदानीं मम यः पुरुषः निर्धनीपुरुषः अस्ति अहं तु तादृशपुरुषस्य सहायं न करोमि अहं तु परमात्मा अस्ति सः एव इदानीं मनुष्यरूपेण अस्ति मम तस्य सहायं यदा सहायं करोमि इति एतादृशभावना यदा भवति तदानीं मनसि अहङ्कारः न भवति अहङ्कारः वर्धितं न भवति तर्हि तत्र ता तादृशपुरुषस्य मनसि कीदृशी भावना भवति इति चेत् तर्हि इदं शरीरम् इदं मनः एतद्धनं एतत् सर्वं परमात्मना परमपुरुषेण एव दत्तं मम पुरतः यः मनुष्यः अस्ति सः तु तत्र परमात्मनः स्वरूपमस्ति परमात्मा एव मम पुरतः साक्षात् परमात्मा एव मम पुरतः आगतः अत्र निर्धनी निर्धनीपुरुषरूपेण अथवा रोगीरूपेण अहं यदा किमपि करोमि तर्हि अहं परमात्मनः यद्वस्तु मया स्वीकृतं तदहं प्रत्यर्पयामि स तत्र वास्तविक स्वामी अस्ति मम सर्वस्य सः स्वामी मम शरीरस्य मम मनसः मम धनस्य सर्वं सः स्वामी अस्ति यद् तेन दत्तम् इदानीम् अहं प्रत्यर्पयामि इति भावना मनसि आयाति तदानीम् अहङ्कारः न भवति अहङ्कारः न भवति तर्हि तत्र एतादृशभावना कथम् आयाति इति चेत् तर्हि साधनाद्वारा एव एतादृशभावना आयाति सामान्यतया यदा वयं साधनां कुर्मः तदानीं किं भवति इति चेत् तत्र अस्माकं साधनायाः विषयः अस्ति परमात्मा तर्हि तदानीं वयं किं भवामः वयं विषयीभवामः परमात्मविषयः भवति तर्हि वयं परमात्मानं पश्यामः सः अस्माकं द्वारा दृष्टः भवति परन्तु तत्र वास्तविकतया साधनायाः तत्वं किम् अस्ति इति चेत् एतम् एतादृशं वयं न चिन्तयामः परन्तु वयं न चिन्तयामः यत् अहं परमात्मानं परमात्मा परमात्मनः साधनाम् अहं करोमि इति वयं न चिन्तयामः परन्तु कथं वयं भावयामः इति चेत् अहमेव परमात्मनः विषयः अस्मि अहं विषयः अस्मि परमात्मा मां पश्यति परमात्मा मां पश्यति सः एव अन्ततो गत्वा विषयी वर्तते सः एव मां पश्यति सः एव यत्किमपि अहं करोमि तत् सः एव पश्यति अहमेव विषयः अस्मि सः एव विषयी अस्ति इति भावना यदा भवति तदानीम् एतादृशभावना यदा आयाति तदानीं तत्र अस्माकम् अहङ्कारबन्धनं यत् वर्तते तत् सर्वं नश्यति अहङ्कारबन्धनात् मुक्तिः भवति तर्हि यः साधकः अस्ति यः भक्तः अस्ति तस्य कृते एते त्रयः विषयाः बहु मूलभूताः विषयाः आध्यात्मिकवर्धनार्थं सेवा परिप्रश्नः प्रणिपातः इति तर्हि प्रणिपातः इति बहु मुख्यविषयः अस्ति प्रणिपातः इत्युक्ते तत्र यत्किमपि मम अस्ति तत् मम वस्तुतः नास्ति सर्वं तेन दत्तं तेन दत्तं सः एव स्वामी अस्य जगतः स्वामी सः एव तर्हि तस्यैव सर्वम् अत्र सर्वम् आसीत् अतः अहं किं दत् दातुं शक्नोमि यः भक्तः अस्ति परमात्मनः कृते किमपि दातुम् इच्छति चेत् अहं किं दातुं शक्नोमि यतोहि सर्वं तु तस्य एव वर्तते तर्हि अहं किं दातुं शक्नोमि इति चेत् अहं त्वम् अर्पयामि तावदेव यद् तस्य अस्ति अहम् अर्पयामि स्वमेव हा। अर्प मम पृथक् अस्तित्वं नास्ति इति भावना इति भावनया यदा साधकः वर्तते तदानीम् अग्रगतिः अवश्यं भवति अग्रगतिः भवति अतः अत्र भक्तस्य कृते एते त्रयः विषयाः मूलभूताः विषयाः ते प्रणिपातः परिप्रश्नः इति अत्र कोपि प्रश्नः अस्ति वा स्पष्टमस्ति भगिनि अस्तु सर् अस्तु इदानीम् अत्र अस्माकम् अद्य नूतनः नूतनः विषयः अस्ति गतवर्गे अस्माभिः दृष्टं मानवतायाः लक्ष्यं किम् इति अस्माभिः दृष्टं तर्हि तत्र मुक्तिः मोक्षः इत्यनयोः भेदः इत्यस्य विषये बहु चर्चा जाता इदानीं किञ्चित् तत्र साधनाभ्यासः अपि तस्य आवश्यकता इत्यस्य विषये किञ्चित् चर्चना चर्चां कुर्मः अस्तु okay. शुचित्र भगिनी स्वीकरोति वा नमस्कारः भगिनि श्रूयते वा आं श्रूयते न श्रूयते भगिनि हरि ओम् सुलचित्रभगिनी किमपि न हरि ओम् सरलभगिनी भवती श्रोतुं शक्नोति वा no, न भगिनी अहमपि न श्रु श्रुणोमि ओके okay, सुचित्राभगिनी पुनः आगन्तव्यं भवत्या किमपि न श्रूयते okay, ओके सरलाभगिनी भवती पठतु साधना अभ्यासः तस्य आवश्यकता च प्रकृतिबन्धनात् मुक्तिप्राप्तुं सर्वतो सर्वतोमुखप्रयासः अस्ति साधना अथवा साधना अभ्यासः तु साधना अभ्यासः किम् अस्ति तस्य आवश्यकता का अस्ति इति अस्ति अग्रिमपरिच्छेदमपि स्वीकरोतु भगिनि अस्तु उपरि करोति वा अस्तु स्थूलात् सूक्ष्मपर्यन्तं गमनावस्थायां गमना शरीरस्य आश्रयं स्वीकृत्य जीवात्मा स्वं स्पष्टतया शरीरे प्रतिबिम्बयति इति सृष्टिकथा प्रदर्शयति सगुणभ्रमण प्राप्तैः पञ्चभूतैः अस्माकं शरीरं निर्मितं वर्तते यथा जीवात्मा पूर्णतया प्रतिबिम्बितः भवति तदा प्रकृतेः गुणप्रभावात् तस्य मनः अपि सिद्धयति सत्वम् रज तम चे इति च इति प्रकृतेः सिद्धान्तत्रयं वर्तते एतेन सिद्धान्तत्रयेण क्रमेण महत्तत्त्वम् अहं तत्त्वम् चित्तम् च इति कार्यात्मकम् रूपत्रयं मनसि दत्तम् दशभौतिकङ्गानाम् अथवा इंद्रिया द्वारा चित्न अग्रे प्रक्षिप्य प्रकृति गुण प्रभाव क्रमिक वृद्धया जीवात्मा महत अथवा बुद्धिवेन रूप अभवत्यत गुण प्रभावया जीवात्मा अहम तत्वेण स्थूलतर जाता आ, अन्ततो गत्वा च सः चित्तरूपेण इतोपि स्थूलः अभवत् जीवात्मा यत् चित्तम् तेन च दशभौतिक भौतिक अङ्गानाम् अथवा इन्द्रियाणां साहाय्येन स्थूलशारीरिकक्रियारूपेण प्रक्षिप्तुम् आरब्धम् वयं सृष्टिचक्रपूर्वं दृष्टवन्तः तस्मात् वयं जानीमः षड्वादन दशवादनतम् यत् अस्ति पञ्चभूतानि तत् तेभ्यः यदि प्रथमम् एक, एक एक सेल, युनिसेल्युलर् इति यत् अस्ति तत् तस्मात् जीवः तदनन्तरं जन्तुः पक्षीन् पशव मानव मानवस्य निर्माणं यद् भवति यदि वयं मनुष्य रूपं प्राप्नुमः तदा मनः अपि स्पष्टतया तत्र मनुष्ये मनः अस्ति तत्र जीवात्मा पूर्णतया प्रतिबिम्बिता अस्ति तु इदानीं मनुष्य यदि मनः प्राप्नोति तदानीं तस्य ए अन्तेष्णापि आगच्छति अन्तेष्रा किं परमात्मनः ऐक्यं भवेत् इति अन्तेषणा न अनन्तेषणा अनन्तैषणा अनन्तेष् आमां तु अनन्तेषा इति यदि परमात्मनः ऐक्यं भवेत् इति कथं भवेत् इत्यस्य किम् अस्ति तस्य वयं साधना आ, साधना सा साधनयाः इति कर्तुं शक्नुमः किन्तु अस्माभिः कानि सा साधनयाः अस्माकं के साधना सन्ति यथा इदानीम् अत्र दत्तमस्ति दश शरीरम् एकम् अस्ति अस्माकं निमित्तं शरीर मनुष्यै शरीर ना शरीरं नास्ति तु विदेह मनुष्य विद् विदेह चित्त साधनां न कर्तुं शक्नोति तु शरीरम् आवश्यकमस्ति शरीरमस्ति किन्तु शरीरे अपि प्रकृतेः प्रभावः अस्ति सतरजतमेषा ते त्रिगुणात्मा त्रिगुणात्मिकप्रकृतिः ते अस्ति तेषां प्रभावः अस्ति शरीरमन तस्य कथम् अस्माभिः प्रयोग करणीयम् इति अपि आगच्छति दश भौतिक अङ्गानाम् इति दशेन्द्रियाणि यथा वयं जा जानीमः पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि तेषाम् उपयोग साधनायाः करणीयं न तु केवलं बहिः वस्तूनि प्रति गन्तव्यम् इति बाह्यक अन्तः कथं गत इति स्थूलशरीरा uh, सूक्ष्मशरीरं प्रति गन्तव्यम् इति अस्ति अस्माकं प्रयास आमामां हा इत्युक्ते समीचीनं भगिनि सम्यक् अस्ति तर्हि मनः बन्धने अस्ति मनः बन्धने अस्ति कथं मनः बन्धने आयाति इति एव तत्र वास्तविककथा वास्तविकी कथा द्वादशवादनात् षड्वादनपर्यन्तं तत्र अत्र किं सञ्चर्धारा इति वयं वदामः यत्र मनसः आविर्भावः भवति द्वादशवादनात् त्रिवादनपर्यन्तं मनसः आविर्भावः मनसः अंशानाम् आविर्भावः त्रिवादनात् षड्वादन षड्वादनपर्यन्तं पञ्चभूतानाम् आविर्भावः षड्वादने स्थितितत्त्वस्य आविर्भावः तर्हि षड्वादनाद्वादशवादनपर्यन्तं तत्र प्रकृतिः नित्यनिवृत्ता तत्र क्रमेण विकासः भवति तदेव वयं सञ्चर्धारा इति वयं वदामः तत्र जीवानाम् आविर्भावः क्रमिकरूपेण जीवानाम् आविर्भावः भवति प्रथमतया प्रारम्भिकस्तरी स्तरीयजीवाः ये सन्ति तेषु जीवेषु मनः सम्पूर्णतया वर्धितं नास्ति क्रमेण विकासः भवति तर्हि दशवादने मनुष्याणाम् आविर्भावः मनुष्येषु तु सम्पूर्णतया मनः वर्धितं वर्धते तर्हि भूमं भूममनसः निर्माणं त्रिवादनपर्यन्तं जायते तर्हि तत्र एव यदा भूममनसः निर्माणं भवति तदानीं निर्गुणपुरुषः क्रमेण बन्धने आयाति प्रकृतेः गुणप्रभावेण पुरुषः बन्धने आयाति तत्त्वगुणस्य प्रभावेन महत्तत्त्वस्य आविर्भावः अनन्तरं रजोगुणस्य प्रभावेन रजोगुणस्य प्रभावेन महत्तत्वे अहं तत्वस्य प्रादुर्भावः अनन्तरं तमोगुणस्य अहं तत्वे यदा प्रभावः भवति तदानीं चित्तस्य आविर्भावः इत्येवं रीत्या भूममनसः निर्माणं भवति तर्हि तत्र एव एकस्मिन् स्थले एव मनसः निर्माणं भवति मनसः निर्माणं सर्वत्र भवति इति नास्ति इत्युक्ते प्रथमतया एकवादने सत्त्वगुणस्य प्रभावः यदा पुरुषे निर्गुणपुरुषे भवति तदानीं मातत्त्वस्य आविर्भावः महतत्त्वस्य वस्तुतः निर्माणं तदनन्तरं यदा रजोगुणस्य प्रभावः महत् महत्तत्त्वे भवति तदानीम् अहं तत्त्वस्य निर्माणम् अनन्तरं यदा तमोगुणस्य प्रभावः अहं तत्वे भवति तदानीं चित्तस्य निर्माणं भवति तर्हि मनसः निर्माणं केवलं द्वादशवादनत्रिवादनपर्यन्तं भूममनसः निर्माणं भवति तत्र एव मनसः त्रय त्रयाणाम् अंशानां निर्माणं तत्रैव भवति षड्वादने यदा तत्र जीवानां षड्वादनस्य अनन्तरं यदा आविर्भावः भवति जीवेषु मनः वर्तते तत्र मनः निर्मितम् इति नास्ति पूर्वं भुवा मनः यः भूवमनसः मनः यद् वर्तते भुवा मनः इति वर्तते तस्य अंशस्य आविर्भावः भवति जीवेषु अतः जीवेषु मनसः निर्माणम् इति नास्ति भूवा भूमामनसः अंशः एव जीवेषु भवति तर्हि भूमामनः वा भवतु अनुमनः वा भवतु तयोः सर्व... तेषां सर्वेषां निर्माणं तु द्वादशवादनत्रिवादनपर्यन्तं भवति यतोहि अनुमनः वस्तुतः भूममनसः अंशः अस्ति इति तत्र भूममनसः निर्माणं तदनन्तरं पञ्च त्रिवादनात् षड्वादनपर्यन्तं पञ्चभूतानां निर्माणं क्रमेण आकाशात् वायुः वायोः अग्निः अग्नेः आपः अद्यः पृथ्वी इदानीं षड्वादने पृथ्वी अथवा क्षितितत्त्वस्य निर्माणं तर्हि षड्वादने यदा तत्र क्षितितत्वम् अस्ति क्षितितत्त्वे तमोगुणस्य आधिक्यं यदा भवति अपि च तत्र अनुकूलवातावरणं यदा भवति तदानीं जीवस्य आविर्भावः भवति जीवस्य आविर्भावः भवति प्रथमतया तत्र क्रमेण विकासः भवति प्रथमतया यदा भिन्न उक्तवती एककोशः जीवः एककोशिकजीवः तस्मिन्नपि मनः वर्तते परन्तु तस्मिन् त्रिस्तरीयमनः न वर्तते तत्र केवलं चित्तम् एव भवति तदनन्तरं क्रमेण विकासः भवति तर्हि यदा क्रमेण विकासः भवति तर्हि प्रथमतया चित्तं तदनन्तरम् अहं तत्त्वं तदनन्तरं प्रारम्भिकस्तरः महत्तत्वं केषुचित् जीवेषु महत्त्वं नास्ति तदनन्तरम् अन्ततो गत्वा दशवादने मनुष्याणाम् आविर्भावः यत्र मनसः सम्पूर्णतया वर्धितं वर्तते तर्हि अन्येषु जीवेषु मनः मनः सम्पूर्णतया न वर्धितम् इत्युक्ते तत्र मनसः अन्ये अंशाः सुषुप्त अवस्थायां भवन्ति अतः अत्र अत्र वयं पश्यामः चेत् तत्र सर्वस्य निर्माणस्य सामग्री अस्ति पुरुषः तत्र पुरुषः क्रमेण बन्धने आयाति द्वादशवादनात् षड्वादनपर्यन्तं क्रमेण बन्धनात् मुक्तः भवति पुरुषः षड्वादनात् द्वादशवादनात् द्वादशवादनपर्यन्तम् अतः एव प्रकृतिः नित्यनिवृत्ता इति वयं वदामः चित्तं यद् करोति तत्तु इन्द्रियद्वारा कर्मेन्द्रियैः ज्ञानेन्द्रियैः एव चित्तं चित्तेन कार्यं क्रियते एतेषां सहायेन इति तत्र अस्मिन् परिच्छेदे अत्र उक्तमस्ति अपि च तत्र प्रकृतिबन्धनात् मुक्तिः इष्यते चेत् तदानीम् अस्माभिः साधना करणीया इति अत्र एव मुक् मुख्यविषयः अस्ति इत्युक्ते मानवधर्मः इत्युक्ते अनन्तेषणा इति भग्नि उक्तवती अनन्तेषणायाः पूर्तिः कथं भवति इति चेत् साधनाद्वारा एव भवितुम् अर्हति इति अस्ति तर्हि इदानीं किञ्चित् अग्रे गच्छामः सुचित्रभग्नि इदानीं वक्तुं शक्नोति वा पूर्वं न श्रुतं हा इदानीं श्रूयते वा भगिनी इदानीमेव श्रूयते समस्या आसीत् हा हा इदानीं श्रूयते वदतु भगिनि तत्र प्रथमपरिचेदेव आसीत् खलु सर्वतोमुखः साधनाभ्यासः सर्वतोमुखः इत्युक्ते किं प्रयासः सर्वतोमुखः प्रयासः इत्युक्ते सर्वतोमुखः प्रयासः इत्युक्ते यदा वयं साधनां कुर्मः अत्र शारीरिकस्तरे मानसिकस्तरे आध्यात्मिकस्तरे अस्माकं वर्धनं वर्तते खलु शारीरिकस्तरे साधनाङ्गानि सन्ति इत्युक्ते तत्र आहारः सात्विक आहारः निर्जलोपासः इत्यादिकम् आसनानि इत्यादिकं यद् वयं कुर्मः तत्र शारीरिकस्तरे अस्माकम् अग्रगतिः भवति यदा शारीरिकस्तरे अग्रगतिः भवति तदानीं मनसः कृते सम्यक् वातावरणं भवति तदानीं मनसः वर्धनं भवति तर्हि तदनन्तरं तत्र मनसः मुक्तिः बुद्धेः मुक्तिः इति तदर्थम् अस्माभिः तत्र किमस्ति तत्र मम मम कारत्वं सर्वेषां कृते भवति एतत् सर्वं कथं भवति इति चेत् साधनाद्वारा एव भवति मानसिकस्तरे वर्धनम् आध्यात्मिकस्तरे वर्धनं शारीरिकस्तरे वर्धनम् एतत् सर्वं साधना साधनाङ्गानि सन्ति तैः एव अस्माकं सर्वतोमुखः वर्धनं भवति एतदेव सर्वतोमुखप्रयासः इति वयं वदामः सर्वतोमुखप्रयासः इत्युक्ते बन्धनात् मुक्तिः कथं भक्तुं कथं भवितुमर्हति इति चेत् साधनाद्वारा इत्युक्ते साधना इत्युक्ते केवलं साधना इति नास्ति प्रथमतया साधनाङ्गानि सन्ति साधनाङ्गानि यदा अस्माभिः तस्य तस्य पूरणं यदा वयं कुर्मः साधना साधनाङ्गानां तदानीमेव साधनायां वर्धनं भवति यदा साधनायां वर्धनं भवति तर्हि सर्वेषु स्तरेषु अस्माकं वर्धनं भवति Okay, अग्रे स्वीकरोति जीवात्मा क्रमेण प्रकृतेः प्रभावे आगच्छति अतः प्रकृतेः वशात् बहिः गन्तुं जीवात्मना क्रमेण निवृत्तिः कर्तव्या प्रथमं चित्तात् अहं तत्त्वं प्रति निवृत्तिः ततः अहं तत्त्वात् महत्तत्त्वं प्रति प्रत्याहारः कर्तव्यः भवति अन्ते च प्रकृतिग्रहणात् मुक्त्यर्थं रूपान्तरितप्रक्षेपणात् महत्त्वत् जीवात्मनं प्रति निवृत्तिः कर्तव्या एवं क्रमेण प्रकृतेः गुणप्रभावात् निवृत्तिं प्राप्तुं साधनाभ्यासः अभिप्रेतः अस्ति अनेन साधनाभ्यासेन प्रकृतिः चैतन्योपरि स्वगुणान् आरोपयितुं न शक्नोति अत्र दत्तमस्ति कथं प्रक् जीवात्मनः प्रकृतेः प्रभावे आगच्छति इति तत्र प्रकृतेः प्रभावे इत्युक्ते प्रकृते यदस्ति त्रिगुणात् गुणः अस्ति तेन प्रभावेण बन्धने आगच्छति तद्वसात् पुनः प्रकृतिबन्धनात् बहिः गन्तुम् किमपि कर्तव्यं भवति एव यदा बन्धने भवामः प्रथमं तु ज्ञातव्यमस्ति बन्धने अस्ति इति अनन्तरं तद्बन्धनात् कथं निवृत्तिः भवे, भवेत् कथमपि भवेत् इति तत्र प्रयासः करणीयः कीदृशः प्रयासः अस्ति प्रथममस्ति चित्तात् अहं तत्त्वं प्रति निवृत्तिः अहं तत्त्वम् अनन्तरम् अहं तत्त्वात् महत्तत्वम् अस्तु पुनः त्रिस्तर्य भवति चित्तात् अहं तत्त्वं प्रति गन्तव्यम् अहं तत्त्वात् महत्तत्त्वं प्रति गन्तव्यम् अन्ते च प्रकृतिगृहात् मुक्त्यर्थं रूपान्तरितप्रक्षेपणात् रूपान्तरितप्रक्षेपणात् इत्युक्ते नाम महत्तत्त्वं न किमस्ति महत्तत्त्वं निर्गुणपुरुषस्य एव गुणान्वितं रूपम् अस्ति खलु रूपान्तरितमस्ति रूपान्तरिट् इस् द प्रोजेक्षन् इट् इस् द प्रोजेक्षन् आफ़् दट पुरुष इन्फाक्टेड् बै गुण इस् वाट् इस् महत्तत्त्वं बै द सत्त्वगुणा आफ् प्रकृतिः यदा पुरुषः प्रभावितः भवति तदानीं तत्र महत्तत्वस्य निर्माणम् अतः महत्तत्त्वम् इति पुरुषस्य एव गुणान्वितं रूपम् अस्तु अतः चित्तात् अहं तत्त्वं प्रति पुनः अहं तत्त्वात् महत्तत्त्वं प्रति पुनः महत्तत्त्वादपि अग्रे गन्तव्यमस्ति यदा जीवात्मनां प्रति तादृशं क्रमेण गत्वा प्रकृतेः गुणप्रभावात् मुक्तिं प्राप्तुं तत्र शक्यते येन शक्यते इत्युक्ते साधनाभ्यासेन शक्यते अतः साधनाभ्यासः एव साधनाभ्यासेन एव आ, प्रकृत्या वन्धनात् उपरि गन्तुं शक्यते बन्धनस्य विमोचनं कर्तुं शक्यते चैतन्यस्य किमस्ति अनुभवं प्राप्तुं शक्यते समीचीनं समीचीनम् इत्युक्ते अयम् अयं मुख्यः विषयः अस्ति साधना किमर्थं क्रियते इति चेत् साधना साधनायाः उद्देश्यं किम् इति चेत् प्रकृतेः गुणप्रभावात् क्रमेण मुक्तिः येन प्रकृतिः स्वस्य गुणान् आरोपयतु न शक्नोति पुरुषस्य उपरि अस्माभिः उक्तं षड्वादनाद्वादशवादनपर्यन्तं प्रकृतिः नित्यनिवृत्ता इति एतदेव व्यवस्था वर्तते परमात्मनः व्यवस्था वर्तते यद् षड्वादनाद्वादशवादनपर्यन्तं सा प्रकृतिः क्षीणा भवति प्रकृतिः क्षीयते सा स्वयं तत्र निवृत्ता भवति षड्वादनात् अतः एव दशवादने सत्त्वगुणस्य प्राधान्यं वर्तते षड्वादनात् आरभ्य एव तत्र यदा जीवानाम् आविर्भावः भवति तत्र सत्त्वगुणस्य प्राधान्यं भवति तर्हि तत्र क्रमेण विकासः भवति सङ्घर्षेण विकासः भवति जीवानाम् अग्रगतिः भवति येन दशवादने मनुष्यस्य जन्म भवति तर्हि इदानीं तत्र प्रकृतिः स्वयमेव निवृत्ता वर्तते सा प्रतिसञ्चर्धारायां प्रकृतेः बन्धन बंदन, बन्धनीशक्तिः वर्तते बन्धनीशक्ति तस्याः बन्धनं न्यूनीभवति तस्याः बन्धनं न्यूनीभवति षड्वादनात् द्वादशवादनपर्यन्तं क्रमेण अतः यदा वयम् अस्माकं व्यवहारमपि यथा प्रकृतिः इच्छति तथा वयं व्यवहरामः तदानीं प्रकृतिः अस्माकं सहायं करोति साहाय्यं करोति अस्माकं वर्धनार्थम् अतः दशवादने यदा वयं सत्त्वगुणस्य प्राधान्यं कर्तुं वयमपि प्रयासं कुर्मः प्र प्रकृतिः अपि सत्त्वगुणस्य प्राधान्यं करोति यदि तदनुगुणं वयमपि सत्त्वगुणस्य प्राधान्यार्थं प्रयासं कुर्मः तदानीं प्रकृतिः साहाय्यं करोति अस्माकं वर्धनार्थम् अतः एव सत्त्वगुणस्य आवश्यकता वर्तते अग्रगतिं प्राप्तुं सत्त्वगुणस्य आवश्यकता वर्तते तदर्थमेव भोजनस्य आवश्यकता वर्तते सात्विकाहारस्य आवश्यकता वर्तते किमर्थम् इति चेत् किमर्थं सात्विकं सात्विकम् इति वयं वदामः इति चेत् सत्त्वगुणस्य प्राधान्यं तदानीमेव भवितुमर्हति सत्त्वगुणस्य प्राधान्यं भवति चेदेव परमात्मानं प्रति आकर्षणं भवति यदि सत्त्वगुणस्य प्राधान्यं नास्ति तमोगुणस्य प्राधान्यं भवति यदि वयम् इदानीं तु वयं साधकाः स्मः अस्माकम् आहारस्य परिवर्तनं जातं तर्हि इदानीं यदि वयम् एकं दिनं वा दिनं द्वयम् अस्माकं सात्विकाहारं त्यक्त्वा अन्य अन्यद् भोजनं वयं स्वीकुर्मः चेत् वयं स्वयं द्रष्टुं शक्नुमः यत् अस्माकं मनसि प्रभावः भिन्नः अस्ति इति वयं द्रष्टुं शक्नुमः अत्र संशयः नास्ति अत्मा वर्गेषु अन्ये अन्ये अन्ये वर्गाः सन्ति खलु तेषु वयं ओ अहं तत्र दिनद्वयं सात्विकाहारं स्वीक स्वीकृतवान् अनन्तरं पुनः अन्यत् स्वीकृतवान् तदानीम् एवं जातं मम मनसि एवं जातम् मम मनसि चञ्चलता आगतम् अथवा एवम् एवम् एवं इति वयं बहुधा श्रोतुं शक्नुमः अतः अत्र दशवादने सात्विकसत्त्वगुणस्य अग्रगतिं प्राप्तुं सत्त्वगुणस्य आवश्यकता वर्तते तर्हि यदा दशवादने मनुष्याणाम् आविर्भावः भवति ते अपि बन्धने वर्तन्ते तेषु तत्र पशुव्यवहारः प्राधान्यं भवति यदा तेषाम् अन्तश्चक्षुः उद्गाटितं भवति ते अवगच्छन्ति यद् अहं बन्धने अस्मि इति अवगमनं प्रथमतया आवश्यकम् अहं बन्धने अस्मि इति अवगमनं यदा अवगमनं भवति तदानीं बन्धनात् मुक्तिः आवश्यकी इत्यपि अवगमनं भवति तदानीं तत्र किं भवति इति चेत् तत्र मुक्तिः मुक्ते मुक्तेः आकाङ्क्षा भवति तदानीं सद्गुरुप्राप्तिः भवति सद्गुरुप्राप्त्या पद्धत्या साधनापद्धत्याः ज्ञानं भवति यदा वयं साधनां कुर्मः तदानीं किं भवति प्रकृतिबन्धनात् कथं वयं क्रमेण मुक्तिं प्राप्नुमः तर्हि प्रथमतया अस्माभिः किं क्रियते इति चेत् साधनायां प्रथमतया साधना चित्ते वयं साधनां कुर्मः तर्हि चित्ते यदा वयं कुर्मः तदानीं क्रमेण चित्तं चित्तस्य निवृत्तिः चित्तम् अहं तत्वे ऐक्यं प्राप्नोति तर्हि पुनः वयं साधनाम् अह अहं तत्वे साधनां कुर्मः तदानीं सा चित् अहं तत्त्वं महत्तत्वे ऐक्यं प्राप्नोति निवृत्त निवृत्तं भवति तदनन्तरं महत्तत्वे साधनां कुर्मः तदानीं महत्तत्वम् आत्मनि निवृत्तं भवति तदानीं किं भवति इति चेत् तदानीं तत्र समाधिः भवति तदानीं तत्र जीवात्मा परमात्मनि विलीनं भवति इति एवम् अस्ति क्रमेण साधनायां निवृत्तिः यथा तत्र कदलीफलस्य पुष्पं भवति खलु कदलीपस् कदलीफलस्य पुष्पं तत्र पुष्पे पुष्पे इट् इस् लैक् अ बल्ब् तत्र तत्र बहवः अवयवाः सन्ति खलु देर् आर् लाट् आफ़् लेयर्स् एकैकम् अवयवं वयं निष्कासयामः तर्हि अन्तः अन्तः अन्तः यथा वयं गच्छामः तर्हि अन्ततो गत्वा तत्र अन्ते एकं लघुपुष्पं भवति लघुपुष्पं खलु यथा तत् तत्र अस्ति कदलीपुष्पस्य विषये तथैव अस्माकं मनः मनसि बहवः अवयवाः सन्ति एकैकम् एकैकं वयं निष्कासयामः तर्हि अन्तः अन्तः अन्तः अन्तः अन्तः गच्छामः तर्हि एकम् अन्यस्मिन् विलीनं भवति एकम् अन्यस्मिन् विलीनं भवति एकम् अन्यस्मिन् विलीनं भवति इति कृत्वा अन्ततो वयं गच्छामः तदानीं जीवात्मा परमात्मनि विलीनं भवति तदेव अन्ते यद यद् पुष्पं वर्तते तदेव परमात्मा इति चिन्तयतु तर्हि अन्ततो गत्वा वयं परमात्मानं प्राप्नुमः इति एवं रीत्या तत्र क्रमः इति एवं रीत्या बन्धनात् मुक्तिः भवति यावत्पर्यन्तं बन्धने वयं भवामः तावत्पर्यन्तं सुखं दुःखं सुखं दुःखं सुखं दुःखम् इति प्रवर्तते तर्हि साधनाद्वारा वयं किं कर्तुं इच्छामः इति चेत् क्रमेण क्रमेण प्रकृतेः गुणगुणप्रभावेण मुक्तिः प्रकृतेः गुणप्रभावेन मुक्तिः एव अत्र साधना इत्युक्ते प्रथमं चित्तात् अहं तत्त्वं तादृशं पुनः गतिः भवति वा अन्यथा तु इदानीं सृष्टिचक्रे प्रथमे एककोशी जीवे तु आसीत् चित्तस्य प्रभावः आसीत् तत्तु बहुकोशी जीवे तु तत्त्वस्य अपि आविर्भावः अभवत् तत्तु प्रकृति प्रकृत्याः यद् क्रमः अस्ति तादृशम् एव गमनं भवति चेत् तत्र चित्तस्य वा अहं अनन्तरं महत्ततोष आविर्भावः अभवत् mm -hmm. तत्र कुतः प्रयासः तत्तु प्रकृतिनियमेनानुसारेण एव अभवत् यदा मनुष्यरूपं प्राप्तं दशवादने तत्र प्रयासः जातः एतात् क्रमात् पुनः निवृत्त्यर्थम् आम् इत्युक्ते हा इत्युक्ते तत्र प्रथमतया मनुष्येषु एव साधनां कर्तुं शक्तिः वर्तते अन्येषु जीवेषु साधनां कर्तुं शक्तिः नास्ति ते सामर्थ्यं नास्ति तेषु अनन्तेषणा एव नास्ति अतः तेषु सामर्थ्यं नास्ति साधनां कर्तुं केवलं मनुष्येषु एव प्रथमवारं साधनां कर्तुं तादृशसामर्थ्यं वर्तते यतोहि तेषु मनः सम्पूर्णतया वर्धितं तर्हि यदा वयं वयं पश्यामः सर्वदा वयं पश्यामः त तर्हि अस्माकं चित्तम् एव इन्द्रियेण संयुक्तं वर्तते अस्माकं चित्तं प्रथमतया इन्द्रियेण संयुक्तं वर्तते इन्द्रियम् अर्थेन संयुक्तं वर्तते अस्माकं पुरतः यः विषयः अस्ति तेन संयुक्तमस्ति इन्द्रियं तर्हि सर्वदा चित्तं प्रथमतया आयाति चित्तस्य एव इन्द्रियेण संयोगः भवति यदा वयं साधनां कुर्मः क्रमेण वयं किं कुर्मः इति चेत् क्रमेण इन्द्रियात् निग्रहणं कुर्मः तदनन्तरं चित्त यदा इन्द्रियात् निग्रहणं भवति तदानीं चित्तं यदा तदा चित्त चित्ते साधना भवति तदानीं चित्ते क्रमेण चित्तं अहं तत्त्वे विलीनं भवति इति एवं रीत्या तत्र क्रमः अस्ति यद्यपि चिष्टिक्रमे प्रथमतया महत्तत्वम् आविर्भूतं परन्तु मनुष्यः यदा साधनां करोति तदानीम् एवं रीत्या यतोहि अस्माकं वी डोण्ट् हेव् कान्टाक्ट् वित् द महत्तत्वं डैरेक्ट्लि यदि अस्माकं महत्तत्वेन सह कान्टाक्ट् डैरेक्ट्लि भवति तदानीं वयं यदि पुरुषः योगी पूर्वजन्मनि अपि योगः तेन कृतः आसीत् साधनापूर्वमपि तेन कृता आसीत् तर्हि इदानीं तस्य प्रभावः अस्मिन् जन्मनि अपि अस्ति चेत् तस्मिन् पुरुषे प्रायः सामर्थ्यं भवेत् यत् सः साक्षात् महत्तत्वे साधनां कर्तुं शक्तिः तस्य भवेत् परन्तु सामान्यतया जनानां एत एतादृशं नास्ति खलु अस्माकं तु तादृशसामर्थ्यं नास्ति यतो हि पूर्वजन्मनि साधना न तर्हि इदानीं प्रथमवारं साधनां कुर्मः चेत् तदानीं तत्र क्रमेण एव गन्तव्यम् अस्माकं साक्षात् महत्तत्वेन साक्षात् सम्पर्कः नास्ति यतोहि मध्ये अहं तत्त्वमस्ति अनन्तरं चित्तमस्ति सामान्यतया अस्माकं व्यवहारः चित्तेन तत्त्वेन एव भवति यद्यपि अहमस्मि भावः अस्ति तथापि साक्षात् महत्तत्वेन अस्माकं सम्पर्कः नास्ति यतोहि तदा लेयर्स् कदलीपुष्पे लेयर्स् सन्ति तथैव अस्माकं मनः अपि अस्ति अस्माकं साक्षात् सम्पर्कः चित्तेन आं तत्वेन भवति साक्षात् महत्तत्वेन सम्पर्कः नास्ति अतः क्रमेण यदा साधनां कुर्महा क्रमेण एवम् एवं भवति यतोहि वयम् अन्तः अन्तः यदा वयं गच्छामः तदानीम् आटोमेटिक्लि द चित्त गेट्स् रिमूव्वान् देन् इन् टु द महत्तत्त्व यदा अन्तः अन्तः यदा वयं डीप् साधनां वयं कुर्मः तदानीमेवं भवति भवत्याः प्रश्नस्य उत्तरं दत्तं वा मया आं भगिनि तदेव प्रश्नमासीत् क्रमेण एव गन्तव्यं वा किमपि महत्त्वे एव प्रथमम् आरम्भ किमर्थं ते यद्भवती उक्तवती खलु महत्तत्वमेव प्रथमम् आविर्भूतम् अतः महत्त्वेन वन् एव साधना करणीयं चेत् महत्त्वं स्थयित्वा तर्हि मुक्तिः प्राप्तुं तद् भवति परन्तु सम्पर्कः नास्ति खलु महत्त्वेन साक्षात् अतः यदा मनुष्यजन्म भवति तदानीम् अस्माकं तु सम्पर्कः साक्षात् चित्तेन एव भवति सर्वदा वयं बहिः यद्वस्तु अस्ति तस्य विषये चिन्तनं कुर्मः तर्हि चित्ते तद्वस्तु आयाति खलु अतः यदा वयं साधनां प्रभावः अस्ति मनसि उपरि आमां संस्काराणां प्रभावः अस्ति सत्यं तु तत्र इन्द्रियस्य सम्पर्कः अस्ति अतः साधनां कुर्मः चेदपि तत्र मनसि वयं पश्यामः खलु अतः तत् तदेव तत्र स प्रस्व प्रमाणं यद् साक्षात् अस्माकं चित्तस्य एव साक्षात् सम्पर्कः अस्ति यदि चित्तस्य सम्पर्कः नास्ति तदानीं यदि साक्षात् महत्तत्वेन सम्पर्कः अस्ति तदानीं तत्र मनसि अन्यः तत्र विषयः न स्यात् खलु धन्यवादः तर्हि इतोपि एकं परिचयं स्वीकुर्मः पठति वा मनुष्येषु चैतन्येन पुरुषेण एव साधना अन्तर्ज्ञानात्मक अभ्यासः कर्तव्या इति पूर्वम् उक्तम् आसीत् अतः प्रारम्भिकसाधना अन्तर्ज्ञानात्मक अभ्यासः रूपान्तरतेन चैतन्येन अर्थात् चित्तेन कर्तव्या भवति साधना क्रियते चेत् चैतन्य निर्वर्त, निर्वर्तते अनेन केवलम् तत्वं, अवशिष्यते अतः अग्रिमसत्ता साधनानिवा निर्वह निर्वहरार्थम् अस्ति अहं तत्त्वं यत् रूपान्तरितं चैतन्यम् अस्ति प्रकृति सिद्धांत महत्व सृजते जानी तादृशात गुणात्मक प्रभाव अहम तत्व स्व मोक् महतन एवं महतत्व वह अवशिष से एक सविक सामा वर्त यम महत वुद्धम अहम इति भावनाया, ब्रह्माण्डीयम् अहम् इति भावनायाः अभिन्ना अवशिष्यते तदनन्तरं महत्त्वं साधनाम् उच आचरति महत्त्वम् जीवात्मनि पूर्णतया विलीयते तत्पश्चात् प्रकृतिप्रभावेण आरोपितगुणेभ्यः चैतन्यम् विमुक्तम् भवति तत् चैतन्यं, तत चैतन्यं प्रकृतिबन्धनात् मुक्तिं प्राप्नोति सा स्थिति निर्विकल सधि की उच्य हैनुष्य साधनाभ्या कर्तव्य सचिता आरभ्य अहम तत्व स साधना अभ्यास अस अच्छा महत्व अवती तस्मा चैतन्यम पूर्णतया मुक्ति प्राप्त प्रकृति गुण प्रभा अस्चे सोपनानन दत्तमस्त कथं प्रथमं चित् तदनन्तरम् अहं तत्र तत् दन्तत्वं तेषां क्रमेण कथं वर्धनं भवति अन्ततो गत्वा अन्तिमे अन्तिमे निर्विकल्पसमाधि प्राप् प्राप्ति भवति इति अस्ति मनुष्यः इति वयं जानीमः चैतन्यपुरुषः अस्ति तस्य या साधना कर्तव्या भवति इति अस्माकं प्रकृतचर्चा अस्ति इदानीं तो प्रारम्भिक इति चित्तः अस्ति तच्चित्त इन्द्रियाणि सर्वदा बहिः गच्छन्ति तस्य प्रथमं भवति चि चित्तेन निग्रहणं करणीयं चित्त यदि चित्तः चित्तसः निग्रहणं भवति तदानीम् एव अग्रे अग्रे गन्तुं शक्नुमः तु प्रथमसाधना अस्ति चै चैतन्येन चैतन्यसहाय सहाय सहायेन निग्रहं करणीयं तस्य भवती इन्द्रियाणि इन्द्रिया इन्द्रियाणि निग्रहं सो आत्मनाय आत्मनस्य निग्रहं क कर्तुं शक्नुमः तो इति भवती तत्र आगच्छति प्रथमं शारीरिक स्तरे यथा वयं कुर्मः इति सात्विक आहारग्रहणं कुर्मः सा आसन प्राणायाम प्रत्याहार इति यदि वयं नियमेन कुर्मः तदानीं कश्चित् नियमेन चित्तस्य एकता आगच्छति एकाग्रता आग भवति चित्रबहिः न गच्छति अन्तर् अन्तर्भावः अं, आगच्छति चित्ते तदनन्तरं तम तमसः तमसः प्रभावः शनैः शनैः न्यूनं भवति अहं तत्त्वं इदानीम् अहं तत्व रजस प्रभावः अस्ति तत् अहं तत्त्वम् आगच्छति अहं तत्त्व इति तस्य यदि साधना वयं इति क्रमेण अधिकम् अधिकं कुर्मः शान्ति मनः शान्तिः भा, शान्तः भवति तदानीं सन्निशने पुनः अहं तत्त्वस्य अपि प्रभाव न्यूनं भवति महत्तत्त्वं तु अस्ति चैतन्यं विलीनं भवति किन्तु महत्तत्त्वम् अपि प्रकृतेः सत्त्वगुणे प्रभावे नास्ति तत्र शुद्धतत्त्व सत्त्व भवति तदानीम् एव अन्तिमं महत्तत्वं भूमां मनस्य विलीनं भवति इति वयं जीवने यदि इति कुर्मः तत्र वयं दृष्टवन्तः इति सविकल्प समाधिः इति वदामः तदनन्तरं इदानीमपि वयं पुनः महत्त्वम् यदि समाधि अस्ति तदानीम् अपि अहं वयम् अधो गन्तुं शक्नुमः किन्तु इतोपि साधना यदि प्रचलति तदानीं वयं यावत्पर्यन्तं या, यावत निर्गुण निरूपे निराकाररूपं वयं न प्राप्नुमः तस्य विली तेषां तस्मै विलीनं न भवामः भवामः तावत्पर्यन्तम् अभ्यासकरणीयम् अपि साधना करणीयम् इति यदि तद् अन्तर्निकल्पसमाधिः इति यथा गतसप्ताहे वयं कैवल्यरूपं प्राप्तिः भवति इति करणीयम् इति प्रकृतिगुणान् आहत्य अस्ति इति प्रकृतिगुणान् प्रभावः न्यूनं कर् कर्तव्यं साधनायाः चित्तस्य प्रभाव प्रथमम् अस्ति तस्य न्यूनं कृत्वा अहं तत्वेन गच्छामः अहं तत्त्वात् इति साधनाभ्यास प्रचलति तदनन्तरं महत्तत्वं तदनन्तरं चैतन्यरूपम् आगच्छति भगिनि समीचीनं धन्यवादः धन्यवादः अत्र अत्र या प्रक्रिया दत्ता तस्यां प्रक्रियायां क्रमेण प्रकृतिबन्धनस्य निवृत्तिः भवति सामान्यतया मनुष्याः पशुजीवनं व्यापयति तर्हि पशुवत् ते किमपि न कुर्वन्ति ते साधनां न कुर्वन्ति तर्हि ते जीवनस्य व्यापनं कुर्वन्ति परन्तु मनुष्येषु इतोपि कर्तुं सामर्थ्यं वर्तते तेषु सामर्थ्यं वर्तते परन्तु सामर्थ्यस्य प्रयोगं ते कुर्वन्ति इति कृत्वा पशुवत व्यवहारः जीवनस्य व्यापनं भवति परन्तु यदा तस् तेषाम् अन्तःचक्षुः उद्घाटितं भवति तदानीं ते, ते अवगच्छन्ति यद् एतत् समीचीनं नास्ति यतोहि तत्र मनसि व्याकुलता भवति ओ एतत् समीचीनं नास्ति यदा व्याकुलता भवति तदानीं किमपि अन्यत् कर्तुं ते प्रयासं कुर्वन्ति इति एव वयं पश्यामः चेत् सर्वेषाम् अस्माकम् एतादृशी कथा वर्तते यदा परमपुरुषः एवं पश्यति यत् अयं पुरुषः सिद्धः अस्ति यथा शिशुः चलनार्थं सिद्धः भवति तदानीं माता सहायं कर्तुम् आगच्छति तथैव यदा मनुष्यः सिद्धः भवति तस्य मनसि व्याकुलता अस्ति तदानीं परमपुरुषः तस्य कृते अवसरः प्रददाति तत्र अवसरं प्रददाति यद् भवान् इदानीं तस्य पुरतः तत्र केनचित् कारणेन तत् कस्यचित् माध्यमेन सः साधनायाः ज्ञानं प्राप्नोति तदानीं यदा साधनायाः ज्ञानं भवति तदानीं तस्य जीवने योगनिष्यजीवनम् इत्यस्य आरम्भः भवति तर्हि तदेव तत्र द्विजः इति वयं वदामः तत्र नूतनजन्म जायते एतावता पशुजीवनम् आसीत् इदानीम् इतः अग्रे मनुष्यजीवनं मानवजीवनं तर्हि अत्र यदा तत्र साधनायाः ज्ञानं भवति अस्माकं मनः मनसि भिन्नभिन्नभावजडताः भवन्ति यदा मनुष्य जीवनं वयं पश्यामः चेत् तदानीं तत्र बह्व्यः भावजडताः भवन्ति तर्हि अस्माकं मुक्तिः आवश्यकी अस्ति तर्हि तत्र शारीरिकबन्धनं तस्मात् मुक्तिः मानसिकबन्धनं तस्मात् मुक्तिः आध्यात्मिकबन्धनं तस्मात् मुक्तिः तर्हि एत एताः भावजडताः सन्ति एताभिः अस्माकं मनः बन्धितं वर्तते तर्हि तदर्थमेव अस्माकं जीवनं भिन्नदिशि आसीत् इदानीं तत्र बन्धनात् मुक्तिः आवश्यकी बन्धनात् मुक्तिः कथं भवति इति चेत् साधनाद्वारा तदर्थम् अस्माभिः क्रमेण अन्तः गन्तव्यं क्रमेण अन्तः गन्तव्यम् तत्तु प्रथमतया अता, एतात्र दत्तमस्ति प्रक्रिया प्रथमं तत्र साधना भवति चित्ते तर्हि अपि परमपुरुषस्य रूपान्तरितम् एव गुणान्वितं रूपम् अस्ति तर्हि चित्ते यदा साधना क्रियते तदानीं चित्तम् अहं तत्वे निवर्तते तदनन्तरम् अहं तत्वे साधना क्रियते अहं तत्त्वं महत्तत्वे विलीनं भवति तदानीं महत्तत्त्वमेव अवशिष्यते तर्हि यदा अवशिष्यते तर्हि यदा महत्तत्त्वं भूममनसा सह यदा ऐक्यं यदा साधनां कुर्मः तदानीं महत्तत्त्वं भूममनसा सह ऐक्यं यदा प्राप्नोति तदानीं स्वविकल्पसमाधिः इति वयं वदामः परन्तु यदा महत्तत्वं जीवात्मनि विलीनं भवति न तु मनसि तदानीं जीवात्मा परमात्मनि विलीनं भवति तदेव तत्र निर्विकल्पसमाधिः इति वयं वदामः तर्हि यावत्पर्यन्तं साधनायां वयं भवामः तावत्पर्यन्तं समाधिः भवति यदा साधनातः बहिः आगच्छामः तदानीं तु तत्र तदानीं मनः पुनः वा तत्र आगच्छति पुनर् पुनरागच्छति मनः इत्युक्ते सम्पूर्णतया विलीनं जातम् इति नास्ति यावत्पर्यन्तं समाधितः वयम् आगच्छामः बहिः तदानीं पुनः मनः आयाति परन्तु मरणकाले तु मुक्तिमोक्षः भवितुमर्हति यः साधकः यः योगी वर्तते सः जानाति मरणकाले कथं तत्र यः अभ्यासं कृत्वा कृत्वा कृत्वा निर्विकल्पसमाधिः कथं भवति स्वविकल्पसमाधिः भव कथं बा, भवति इति सः तस्य अभ्यासः वर्तते तर्हि मरणसमये सः ताम् अवस्थां प्राप्तुं शक्नोति तदा तदानीं मुक्तिः मोक्षः अवश्यं लभ्यते तत्र स्वविकल्पसमाध्यात् यदा मनः पुनः आगच्छति पुनः दैनन्दिनकार्ये सर्वतः भवति खलु तत्र किमपि मनसि किमपि परिवर्तनं भवति वा न इदानीं दैनन्दिनिककार्ये अपि सः ब्रह्मभावः भावः भवति सर्वत्र अतः मनसि परिवर्तनं न भवति यदा पुनः आयाति चेदपि तत्र यौवनस्य जीवनम् एव सः व्यापयति खलु तर्हि यत्किमपि करोति ब्रह्मणः कृते एव करोति तर्हि ब्रह्मचर्यभावस्य आचरणं भवति इति कृत्वा मनसि परिवर्तनं कदापि न भवति अस्तु मनः जगति तिष्ठति परन्तु तत्र किमस्ति Hmm. भवती पश्यति खलु Kampuna... न भवती आचार्यं पश्यति खलु आचार्यं पश्यति um. खलु आं कथमस्ति सः तस्य मनः जगति अस्ति वा अस्तु ah, so, नास्ति एकनिमेषः एक अपि तस्य मनसि मनः जगति नास्ति ah, so, तत् कार्य hmm. सर्वदा सेवा मनोभृत्या एव हा सर्वदा ब्रह्मचर्यभावं सर्वदा सेवा तावदेव खलु इति अस्ति इति अवश्यं भवति तत्र अभ्यासस्य आवश्यकता अस्ति वैराग्यभावस्य आवश्यकता अस्ति क्रमेण यदा साधनां कुर्मः तर्हि अवश्यं तीव्रवैराग्यभावः अवश्यम् आयाति मम अन्ततो गत्वा अहं वक्तुमिच्छामि यत् क्रमेण साधनायाः अभ्यासः भवति तदानीं तीव्र अभ्या वैराग्यभावः अवश्यम् आयाति तीव्रवै वैराग्यभावः यदा आयाति तदानीं क्रमेण जगतः जगति यानि वस्तूनि सन्ति तेभ्यः निवृत्तिः क्रमेण भवति तदानीं तत्र तदानीं तत्र इच्छा अपि न भवति तद् एतद् भवतु तद् भवतु इति इच्छा अपि मनसि न भवति इति क्रमेण तदेव अत्र आटोमेटिक्लि इट् हेपन्स् यु डोण्ट् हाव् टु फ़ोर्स् योर् सेल्फ़् साधनायाः शक्तिः तत्र वर्तते सर्वदा कार्यरताः भव् भवति सः परन्तु कुत्रापि तस्य रागः वा आसक्तिः नास्ति इति अस्ति स्वस्य कृते किमपि न करोति खलु स्वस्य कृते करोति चेदेव रागः आसक्तिः सर्वमस्ति स्वस्य कृते किमपि न करोति किमपि न करोति यदा भोजनं करोति तदपि परमात्मनः कृते खलु अतः यद् किमपि कार्यं करोति यत्किमपि कार्यं करोति तत्र किमपि स्वस्य कृते स्वस्य अस्तित्वं नास्ति स्वस्य पृथक् अस्तित्वं नास्ति अतः यदा समाधितः बहिः आगच्छति चेदपि तस्य मनः इदानीमपि ब्रह्मणि एव भवति आं खलु इति अस्ति अस्तु अत्र अन्यत् किमपि अस्ति वा भगिनी धन्यवादः तर्हि अत्रैव स्थगनं कुर्मः अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः